अथ सप्तदशः सर्गः पुत्रत्वम् तु गते विष्णो राज्ञस्तस्य महात्मनः उवाच देवताः सर्वाः स्वयम्भूर्भगवानिदम् सत्यसन्धस्य वीरस्य सर्वेषाम् नो हितैषिणः विष्णोः सहायान् बलिनः सृजध्वङ्कामरूपिणः मायाविदश्च शूरांश्च वायुवेगसमाञ्जवे बुद्ध तुल्य-पराक्रमान दिव्य वितान नयुद्धिपन्नाष्णुतुल्यपराक्रसंह्याय दिव्यसंहना सर्वास्त्रुण सपन्नामृतप्राशनाव असरसु मुख्यासुंधर्वीण तनूषु चपन्नकृक्ष विद्याधरीषु किात्रु वानीण तनूषु च सृजध्वंहरिरूपेण पुत्राम् स्तुल्यपराक्रमान् पूर्वमेव मया सृष्टो जाम्बवा ऋक्षपुङ्गवः जृम्भमाणस्य सहसा मम वक्त्रादजायत ते तथोक्ता भगवता तत्प्रतिश्रुत्य शासनम् जनयामासुरेवम् वानररूपिणः ऋषयश्च महात्मानः सिद्धविद्याधरोरगाः चारणाश्च सुतान् वीरान् सससुजुर्वनचारिणः वानरेन्द्रम् महेन्द्राभमिन्द्रो वालिनमात्मजम् सुग्रीवम् जनयामास तपनस्तपताम् वरः बृहस्पतिस्त्व नाम महाकपिम् सर्ववानरमुख्याणाम् बुद्धिमन्तमनुत्तमम् धनदस्य सुत श्रीमान् विश्वकर्मात्व जनयन्नलन्नाम महाकपिम् पावकस्य सुतः श्रीमान् नीलोऽग्निसदृशप्रभः तेजसा यशसा वीर्यवान् रूपद्रविण सम्पन्ना वश्विनौ रूपसम्मतौ मयीन्द्रम् च द्विपिदम् चैव जनयामास तु स्वयम् वरुणो जनयामास सुषेणम् शरभञ्जनयामासपर्जन्यस्तु महाबलः मारुतस्यौरसः श्रीमान् हनूमान्नामवानरः वज्रसम्भनोपेतो वैनतेयसमोजवे सर्ववानरमुखेषु बुद्धिमान् बलवानपि ते सृष्टा बहुसाहस्रा दशग्रीववधोद्यता अप्रमेयबलावीरा कामरूपिणः ते गजाचल सङ्काशा वपुष्मन्तो महाबलाः वृक्षवानरगोपुच्छाः क्षिप्रमेवाभिजज्ञिरे यस्य देवस्य यद्रूपम् वेषो यश्च पराक्रमः अजायत समन्तेन तस्य तस्य पृथक् पृथक् गोलाङ्गूलेषु चोत्पन्नाः किञ्चिदुन्नतविक्रमाः वृक्षीषु च देवा महर्षि अक्षायशस्विनः नागाः किम्पुरुषाश्चैव सिद्धविद्याधरोरगाः बहवो जनयामासुर्हृष्टास्तत्र सहस्रशः चारणाश्च सुतान् वीरान् सससुजुर्वनचारिणः वानरान्सु तथा विद्याधरीषु नागकन्यासुचतदा च तदा गन्धर्वीणाम् तनूषु च कामरूपवलोपेता यथा कामविचारिणः सिंहशार्दूलसदृशादर्पेण च बलेन च शिलाप्रहरणाः सर्वे सर्वे पर्वतयोधिनः नखदंष्ट्रायुधाः सर्वे सर्वे सर्वास्त्रकोविदाः विशालयेयुः शैलेन्द्रान् भेदयेयुः स्थिरान् द्रुमान् क्षोभयेयुश्च वेगेन समुद्रम् सनिताम् पतिम् दारयेयुः क्षितिम् पद्भ्यामाप्लवेयुर्महार्णवान् नभस्तलम् विशेयुश्च गृह्णीयुरपि तोयदान् गृह्णीयुरपि मातङ्गान् मत्तान् प्रव्रजतो वने नर्दमानांश्च नादेन पातयेयुर्विहङ्गमान् ईदृशाणाम् प्रसूतानि हरीणाम् कामरूपिणाम् शतम् शतसहस्राणि यूथपानाम् महात्मना ते प्रधानेषु यूथेषु हरीणाम् हरियूथपाः बभूवुर्यूथपः श्रेष्ठान् वीरांश्चा अन्ये रक्षवतः प्रस्थानुपतस्थुः सहस्रशः अन्ये नानाविधान् चैलान् काननानि च भेजिरे सूर्यपुत्रम् च सुग्रीवम् शक्रपुत्रम् च वालिनम् भ्रातराबपतस्थुस्ते सर्वे च हरयूथ पल्म नीलम हनुमंत मनिया हूथपा तेताबलपन्ना सर्वे युद्ध विशारदा विचर तोर्दयन सर्वान्घ्रमहोरगा महाबलो महाबा विपु विक्रम जुगोपुज वीण ऋक्ष गोपुवा न तैरियम् पृथिवी शूरैः स पर्वतवनार्न वा कीर्णा विविध संस्थानैर्नाना व्यञ्जनलक्षणैः तैर्मेघवृन्दाचल कूटसन्निभैर्महाबलैर्वानर यूथपाधिपैः बभू बभूर्भीम शरीर रूपै समावृता रामसहाय इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे सप्तदशः